नारदपुराणं पूर्वार्धम् अध्यायम् 66 सिक्स् सनत्कुमार उवाच ततश्वासानुसारेण दत्त्वा पादं महीतले समुद्रमेखले देवि पर्वतस्तनमण्डले विष्णुपत्निनमस्तुभ्यं पादस्पर्शं क्षमस्व मे इति भूमिं तु सम्प्रार्थ्य विहरेच्च यथाविधि रक्षकोणे ततो ग्रामाद्गत्वा मन्त्रमुदीरयेत् गच्छन्तु ऋषयो देवाः पिशाचाये च गुह्यकाः पितृभुदगण सर्वे करिष्ये मलमोचनम् यदि तालत्रयं दत्त्वा शिरः प्रावृत्य वाससा दक्षिणाभिमुखं रात्रौ दिवा स्थित्वा क्युदङ्मुखः मलं विसृज्य शौचं तु मृताभि समुपाचरेत् एकालिङ्गे बुदे तिस्रो दश वामकरे मृदः करयोः सप्त वै दद्यादित्रिवारं च पादयोः एवं शौचं विधा याध गण्डूषाण्द्वादशैवतु कृत्वा वनस्पतिं चाध मनुना मुना आयुर्बलं यशोवर्चप्रजाः पशु वसूनि श्रियं प्रज्ञां च मेधां च त्वं नो देहि वनस्पदे सम्प्रार्थ्यैवं दन्तकाष्ठं द्वादशाङ्गुलसम्मितं गृहीत्वा काममन्त्रेण कुर्यान्मन्त्री समाहिदः कामदेवपदं ङेन्दं तथा सर्वजनप्रियम् हृदन्दः कामबीजाढ्यं दन्तांश्चानेन शोधयेद जिह्वोल्लेखो वाग्भवेन मूलेन क्षालयेन्मुखं देवागारं ततो गत्वा निर्मल्यमपसार्य च परिधायाम्बरं शुद्धं मङ्गलारार्तिकं चरेद त्रेण पात्रम् सम्प्रोक्ष्य मूलेन ज्वालयेच्छदम् सम्पूज्य पात्रमादायोद्धाय कण्ठां च वादयेत् सुगोकृतप्रदीपेन भ्रामिदेन समन्तदः वाद्यैर्गीतैर्मनोज्ञैश्च देवस्यारार्तिकम् भवेत् इति नीराजनं कृत्वा प्रार्थयित्वा निजेश्वरं स्नातुं या यान्निनगादौ कीर्तयन् देवतागुणान् गत्वा तीर्थं नमस्कृत्य स्नानीयं च निधाय मूलाभिमन्द्रितमृदमादाय कडिदेशतः विलिप्य पादपर्यन्तं क्षालयेत्तीर्थवारिणा ततश्च पञ्चभिः पादौ प्रक्षाल्यान्तर्जले पुनः प्रविश्य नाभिमात्रे तु मृदं वामगरस्य च मणिबन्धे हस्ततले तदग्रे च तथा पुनः कृत्वाङ्गुल्या गाङ्गमृदमादायास्त्रेण तत्पुनः निजोपरिजमन्त्रज्ञो भ्रमयित्वा त्यजेत् सुधी तलस्थां च षडङ्गेषु तन्मन्त्रैः प्रविलेपयेद् निमज्यक्षालयेत् सम्यक् मलस्नानमिदीरिदं विभाव्येष्ठमयं सर्वमांदरं स्नानमाचरेद अनन्दादित्यसङ्काश्यं निज भूषायुधैर्युधं मन्द्रमूर्तिं तत्पादोतकसंभवां स्मृत्वा तत्पादोतकसम्भवां तारां तया संक्षालये सर्वमन्तर्देह गदम् अलम् तत्क्षणाद्विरजा मन्त्री जायते स्फटिकोपमः तदश्रौदोक्तविधिना समाहितः मन्त्रस्नानं तदः कुर्यात्तद्विधानमथोच्यते देशकालौ सङ्कीर्त्य प्राणायामाष्टङ्गतैः कृत्वार्कमन्दलात्तीर्थान्याह्वयेन्मुष्टिमुद्रया ब्रह्माण्डोदरतीर्थानि करैः स्पृष्टानि ते रवेः तेन सत्येन मे देव देहि तीर्थं दिवाकर गंगे चैव गोदावरी सरस्वती नर्मदे सिंधु कावेरी कवेरी जल्स्म सन्निधि गुर इजलेता सुधा बीजेन योजयेत गो मुद्र कृत्या योजुद्रमृदी कवचेनावुच संरक्षास्त्रेण तत्पश्चाच्चक्रमुद्रां प्रदर्शयेद् वन्यर्केन्दुमण्डलानि तत्र सञ्चिदयेद्बुधः मन्त्रयेदर्कमन्त्रेण सुधा बीजेन तज्जलं मूलेन चैकादशधा तत्र भावयेद् पूजायन्त्रं च तन्मध्ये स्वान्दावह्यदेवतां स्नापयित्वार्चयेतां च मानसैरुपचारकैः सिंहासनस्थां तां नत्वा तज्जलं प्रणमेत्सुधीः आधारसर्वभूतानां विष्णोरदुलते तद्रूपाश्च तदो जादा इदिनत्वा प्रणमाम्यहम् इति नत्वा समारुन्ध्य सप्तच्छिद्राणि साधकः निमज्यसलिले तस्मिन्मूलं देवाकृतिं स्मरेद निमज्योन्मज्य त्रिश्चैवं सिं कुम्भ कुम्भमुद्रया ैर्मूलेन चतुर्मैरभिर्षिञ्चेन्निजां तनुं चत्वारो मनवस्तेऽत्र कथ्यन्ते तान्त्रिका मुने सिसृक्षोर्निखिलं विश्वं मुहुः शुक्रं प्रजापदेः मादर सर्वभूतानामापो देव्यः <laughs> पुनन्दु मा अलक्ष्मीर्मलरूपाया सर्वभूतेषु संस्थिता क्षालयन्ति च दां स्पर्शादापो देव्यः पुनन्तु मां यन्मे केशेश्च दौर्भाग्यं श्रीमन्ते यच मूर्धनि ललाडे कर्णयोरक्ष्णोरापस्तद्धन्धुवो नमः आयुरारोग्यमैश्वर्यमरिपक्षयं शुभम् सन्तोषः क्षान्तिरास्तिक्यं विद्या भवदु वो नमः विप्रपादोदकं पीत्वा शालग्रामशिलाजलं पिबे द्विरुद्धं नो कुर्यादेशान्तु नियतो विधिः पृथिव्यां यानि तीर्थानि दक्षाङ्घ्रौतानि भूसुरे स्वेष्ठदेवम् समुद्वास्य मन्त्री मार्दण्डमण्डले तदस्तीरम् समागत्य वस्त्रम् सङ्क्षाल्य यत्नदः वाससि परिधायाथ कुर्यात्सन्ध्यादिकम् सुधीः रोकाद्यशक्रोमनुज कुर्यात् तत्राखमर्षणम् अथ वा भस्मनास्नादो रजोभिश्चैव वा क्षमः अधः सन्ध्यादिकं गुर्यास्तित्वा चैवासने शुभे केशवेन तथा नारायणेन माधवेन च सम्प्राश्यतोऽयं गोविन्दविष्णुभ्यां क्षालेत्करौ मधुसूदनत्रिविक्रमाभ्यामोऽष्ट ौ च मार्जयेत् वामनश्रीधराभ्यां च मुखं हस्तौ स्पृश्येत्तदः पद्मनाभाभ्यां स्पृशे चरणौ तदः दामोदरेण मूर्धानं मुखं सङ्कर्षणेन च वासुदेवेन प्रद्युम्नेन स्पृश्येन्नासिके तदः अनिरुद्ध पुरुषोत्तमाभ्यां नेत्रे स्पृश्येत्तदः अधोक्षज नृसिंहाभ्यां श्रवणे संस्पृश्येत्तथा नाभ्यां स्पृश्येदच्युदेन जनार्दनेन वक्षसि हरिणा विष्णूनां सौ च वैष्णावाचमनं त्विदम् प्रणवाद्यर्णेद मोन्धैकेशवादिक नामभिः मुके नसो स्वप्रदेशिन्यानामया नेत्रकर्णयोः कनिष्ठयानाभिदेशं सर्वत्राङ्गुष्ठयो जनम् आत्मविद्या शिवैस्तत्वयि स्वाहान्तैश्चैव मीदितं युग्व्योमपूर्वकैश्च पिबेज्जलम् आत्मविद्या शिवैरेव शैवं स्वाहा वसानिकैः वालज्जाश्रीमुखै प्रोक्तं शाक्तं स्वाहावसानिकैः वाग्लजाश्रीमुखै प्रोक्तं द्विजाचमनमर्दनं मर्दम् तिलकं च तदकुर्याद्बाले सुष्ठु गदाकृदि नन्तकं हृदये शङ्खचक्रे चैव भुजद्वये शार्ङ्गबाणमस्तके च विन्यस्येत् क्रमशक्सुधीः कर्णमूले पार्श्वयोश्च पृष्टेनाभौ खगुद्यपि ये वन्तु वैष्णव कुयान्मृभिस्तीभवादिहोत्रोदस्म गृही त्र्यंबकवादी मंत्रेणिच मक्र तत्षाघोर सद जादीना पंच कुरिया फालां सोदरहृत्सु च शैव शाक्तत्रिकोणाभं नारीवद्वा समाचरेद कृत्वा दु वैदिकीं सन्ध्यां समाचरेद आचम्य विधिवन्मन्त्री तीर्थान्यावाह्यपूर्ववद ततस्त्रिवारं दर्भेण भूमौ तोयं विनिः सप्तधा तज्जलेनाध मूर्धानमभिषेचयेद ततश्च प्राणानायम्य कृत्वा न्यासं षडङ्गकम् आदाय वामहस्तेऽम्बुदक्षेणा चाद्यपाणिना वियद्वायवग्नि तोयक्ष्मा बीजैसन्मन्द्रियमन्द्रविद मूलेन तस्माश्चो दद्भिर् बिन्दुभिस्तत्त्वमुद्रया स्वशिरसप्तधा प्रोक्ष्यावशिष्टं तत् पुनर्जलं कृत्वा तदक्षरं मन्त्री नासिकान्तिकमानयेद जलं तेजोमयं तच्चाकृष्यान्तश्चेडया पुनः प्रक्षाल्यान्तर्गतं तेन कल्मषं तज्जलं पुनः कृष्णवर्णं रजये स्वाग्रदस्तधा। क्षिपे तस्त्रेण तत्पश्चात्कल्पिते कुलिशोपले एतद्धि सर्वपापग्नं प्रोक्तं चैवाकमर्षणं तदश्च हस्तौ प्रक्षाल्य प्राग्वदाचम्यमन्द्रवित् समुद्धाय च मन्त्रज्ञस्ताम्रपात्रे सुमादिकं प्रक्षिप्यार्कं प्रदद्याद्वै मूलान्तैर्मन्त्रमुच्चरन् रविमण्डलसंस्थाय देवायार्ख्यं प्रकल्पयेद तत्त्वार्घं त्रिरनेनादेवं रविकदं स्मरेद स्वल्पोक्तां च गायत्रीं जपेदष्टोत्तरं शतम् अष्टाविंशतिवारं वा गुह्येदि मनुनार्पयेद उद्यदादित्यसङ्काश्यां पुस्तकाक्षकराम्भुजां कृष्णाजिनाम्बरां ब्राह्मीं ध्यायेत्ताराणि कन्देम्बरेम् मध्याह्ने वरदाम् देवी पार्वतीं संस्मरेत् पराम् शुक्राम्बराम् पृषारूढाम् त्रिनेताम् रविबिम्बगाम् वरम् पाश्यम् च शूलम् च दधानां नृकरोटिकाम् सा यान्ने रत्नभूषाढ्याम् पीतकौशेय वाससा श्यामरङ्गां चतुर्गस्थां शङ्खचक्रलसत्करां गदापद्मधारां देवीं सूर्यास्सनकृताश्रयां ततो देवानृषींश्चैव पितृश्चाभिविधानविध तर्पयित्वा स्वेष्टदेवं तर्पयेत् कल्पमार्गदः गुरुपङ्क्तिं च सन्दर्प्य साङ्गं सावरणं तथा सायुधं वैनदेयं सन्तर्पयामीदि तर्पयेद नारदं पर्वतं जिष्णुं निषढोद्धवदारुकान् विश्वक्षेटं च शैलेयं वैष्णवः परितर्पयेत् एवं सन्तर्प्य प्रेन्द्र दत्त्वार्घ्यं च विभस्वते पूजागारं समागत्य प्रक्षाल्याङ्घ्री उपस्पृशेत् अग्निहोत्रस्थिदानग्निन् हुत्वोपस्थाय यत्नदः पूजास्थलं समागत्य द्वारपूजां समाचरेत् गणेशं चोर्धशाखायां महालक्ष्मीं च दक्षिणे सरस्वतीं वामभागे दक्षे विघ्नेश्वरं पुनः क्षेत्रपालं तथा वामे दक्षे गङ्गां प्रपूजयेद् वामे च यमुनां दक्षे दातारं वामतस्तथा विधातारं शङ्खपद्मनिधींश्च वामदक्षयोः द्वारपालांस्ततोभ्यर्च्य तत्तत् कल्पोदितान् सुधीः नन्दः सुनन्दश्चण्डंश्च प्रचण्ड प्रचलो बलः भद्रस् सुभद्रश्चेत्याद्या वैष्णवाद्वारपालकाः नन्दीभृङ्गीरिडीस्कन्दो गणेशो मा महेश्वराः वृषभश्च महाकालशैवा वै द्वारपालकाः ब्राह्मयाद्र्या मातरोष्टौ दुःशक्रयोद्वास्थिदा स्वयं सेन्धुस्वना मा कर्णाद्या इमे स्मृताः तदस्तित्वा सने धीमानाचम्यप्रयदशुचिः दिव्यान्दरिक्ष भौमांश्च विघ्नानुत्सार्य यत्नदः केशवाद्या मामृकान्धो न्यस्येद्वैष्णवसत्तमः केशवकीर्तिसंयुक्तकान्त्या नारायणस्तधा माधवस्तुष्टिसहिदो गोविन्दः पुष्टिसंयुधः विष्णुस्तु धृति संयुक्तशान्ति युङ्मधुसूतनः त्रिविक्रमक्रियायुक्तो वामनोदयितायुधः श्रीधरो मेधया हर्षया पद्मनाभयुधा दामोदरान्विता वासुदेवश्च लक्ष्मी युग्सङ्कर्षणसरस्वती प्रद्युम्नप्रीति संयुक्कृतो निरुद्धो रदि संयुधः चक्री जया युधः पश्चाद्गदी दुर्गा समन्वितः शार्ङ्गी दुप्रभया युक्ततः युखदा, सत्यया शङ्खी चण्डासमायुक्तो हलीवाणी समायुदः मुसली च विल्लासिन्याचूली विजययान्वितः पाशीविरजयायुक्तो कुशी विश्वासमन्वितः मुकुन्दो विनतायुक्तो नन्दजश्च सुनन्दया निन्दी स्मृत्या समयुक्तो नरो वृद्ध्या समन्वितः स मृद्धि युं नरकजिच्छुद्धियुक्तहरिस्मृतः कृष्णो बुद्ध्यायुधसत्यो भुक्त्या मुक्त्या सात्वदः सौरिक्ष मे सूररमे उमायुक्तो जनार्दनः भूधरक् क्ले दिनीयुक्तो विश्वमूर्तिश्च खिन्नया वैकुण्ठो वसुधायुक्तो वसुधः पुरुषोत्तमः बलिदुपरया युक्तो बलानुजपरायणे बलसूक्ष्मे भृषघ्नस्तु सन्ध्यायुक्प्रज्ञया वृषः हंसप्रभा समायुक्तो वराहो निशयायुधः विमलोदारया युक्तो नृसिंहो विद्युदायुधः केशवादिमातृकाया मुनिर्नारायणो मदः नृताद्या च गायत्री छन्दो विष्णुश्च देवता चक्राद्यायुध संयुक्तं कुम्भादर्शधरं हरिम् लक्ष्मीयुधं विद्युदाभं बहुभूषायुधं भजेद एवं ध्यात्वा न्यसे काम न्यसेच्छक्तिं श्रीकामपुडिदाक्षरम् वदेत्तद्विष्णुशक्तिभ्यां हृदयं प्रणवादिकं त्वग सृङ्मांस मे दोऽस्ति मज्जा शुक्राण्य सुन्वदेद प्राणं क्रोधं तदा मभ्या मन्त्राण्यादि दशस्वपि एकमौलौ मुखे चैक द्विकनेत्रे द्विकं श्रुतौ नसोर्द्वयं कपोले च द्वे द्विरदच्छदे एकं तु रसनामूले ग्रीवायामेकमेवच कवर्गं दक्षिणे बाहौ च वर्गं वामबाहुके तवर्गौ पादयोस्तु पभौ कुक्षिद्वये न्यसेद पृष्टवंश्ये वामित्युक्तं नाभौ भं हृदये तु मं यादिसप्ताभिधातुस्ताहं प्राणेलं तदात्मनि क्षं क्रोधे क्रमदोऽन्यस्य विष्णुपूजा क्षमो भवेद पूर्णो दर्या दुश्रीखण्डो ह्यनन्दो विजरान्विदः सूक्ष्मे साल्मलियुक्तो लोलाक्षी युक्तिमूर्तिकः महेश्वरो वर्तुलाक्ष्याधीशो वैदीर्घकोणया दीर्घमुख्या भारभूदिस्तिधीशो गोमुखीयुधः स्थावरेशो दीर्घजिह्वायुधरत् कुडोदरीयुधः ऊर्ध्वके स्याद् छिण्डीशो भौदिको विकृतास्य या सद्यो ज्वालामुखीयुक्तोल्कामुख्यानुग्रहो युधः क्रूर अस्य या युक्तो महासेनो विद्ययायुधः क्रोधीशश्च महाकाल्या चण्डेश्येन सरस्वती पञ्चान्तकसिद्धगौर्या युक्तश्चाथ शिरोत्तमः त्रिलोक्यविद्यया युक्तो मन्द्रशाक्ति अयि गरुद्रकः कूर्मे शक्कमढीयुक्तो भूधमात्रैकनेत्रकः लम्बोदर्या चतुर्वक्त्रो ह्यजेषो द्राविणीयुधः सर्वेश्वो नागरीयुक्तसोमे शक्केचरीयुधः मर्यादया लाङ्गलीशो दारुकेशेनणी वारुण्यास्त्वर्धनारीशो उमाकान्तो गोदरिया तषाढ़ी पूयुधो मद दंडीशो भद्रकाुगत्रीशो योगिनीयुद मीन शखि खुगो मेषेषस्तार्जनीयुदेध कालरात्राज शिखी शुजनीयुद चलगण्ठकपर्दिन्याद्विरण्ठे शश्च वज्रया महाबलो जया युक्तो बलिषस् सुमुखेश्वरी भुजङ्गोरेवलीयुक्त पिनाकी माधवीयुदः खड्गीशो वारुणीयुक्तो बकेशो वायवीयुदः स्वेदोरस्को विदारिण्या भृगुस्सह जयायुधः लकुलीशश्च लक्ष्मीयो शिवेशो व्यापिनीयुधः संवर्तके महामाया प्रोक्ता श्रीकण्ठमातृगा यत्र स्वीशपदं नोक्तं तत्र सर्वत्र योजयेद मुनिः स्यात् ेवदात् चार्थनारीशो विनि योगोऽखिलापये हलो बीजानि चोक्तानि स्वराशक्तय ईरिताः कुर्यात् भृगुस्ताकाशेन षड् दीर्घाढ्येन चाङ्गमं बन्धुकस्वर्णवर्णागं वराक्षाङ्गुश पाशिनम् अर्धेन्दुशेखरं त्र्याक्षं देववन्द्यं विचिन्तयेद ध्यात्वैवं शिवशक्तिश्च चतुर्थी हृदयान्ति मे सौबीजमादृकापूर्वे विन्यसेन्मादृकास्थले विघ्नेशश्च क्रियायुक्तो विघ्नराजश्रियायुधः विनायकस्तधा पुष्ट्या शान्दियुक्तशिवोत्तमः विघ्नकृत्स्वस्ति संयुक्तो विघ्नहर्ता सरस्वती स्वाकया गणनाथश्च एकदन्तः सुमेधया कान्द्यायुक्तो द्विदन्तस्तु कामिन्या गजवक्रकः निरञ्जनो मोहिनी युः कपदीदुनडीयुदः दीर्घजिह्वपार्वतीयुज्वालिन्या शङ्कुकर्णकः वृषध्वजोनन्दया च सुरेश्या गणनायकः गजेन्द्रः कामरूपिण्या शूपः विरोचनस्तेजोवत्या सत्या लम्बोदरेण महानन्तश्च विघ्नेश्या चतुर्मूर्तिस्वरूपिणी सदा शिवकामदयाख्यामोदो मदजिह्वया दुर्मुखो भूतिसंयुक्तः सुमुखो भौतिकीयुधः प्रमोदसिदयायुक्तयेकपादोरमायुधः द्विजिह्वो महिषीयुक्तो जभिन्या शूरनामकः वीरो विकर्णया युक्तदषण्मुखो भ्रुकुडीयुतः परदो लज्जया वामदेवेशो दीर्घकोणया धनुर्धज्या वक्रतुण्डो द्विरण्डो यामिनीयुधः सेनानिरात्रि संयुक्त कामान्धो ग्रामणीयुधः मत्त शशिप्रभायुक्तो विमक्तो लोलनेत्रया मत्तवाहश्चञ्चलया जडी दीप्तिसमन्वितः मुण्डी सुभगयायुक्तखड्गी दुर्भगयायुधः वरेण्यश्च शिवायुक्तो भगया पृषकेदनः भक्ष्यप्रििय भगिया च गणेशो भगनीयुदनादुभगया व्यापी सियात्लरात्रिुगण काल कालिकया प्रोक्ता विघ्नेशका गणेश मतृकायास्त गण मुनिभिदृगा चंदो देश षड् दीर्घाढ्येन बीजेन कृत्वाङ्गानि तदस्मरेद पाशाङ्कुशाभयवरान् दधानं कहस्तया पत्न्या श्लिष्टं रक्ततनुं त्रिनेत्रं गणपे भवेद एवं ध्यात्वा न्यस्यत् स्वीय निवृत्तिश्च प्रदिष्टाय विद्या शान्तिस्तथेतिका दीपिका रचिका चापि मोचिका च चा पराभिधा सूक्ष्मा सूक्ष्मा मृदा ज्ञाना मृदा चाप्यायिनी तथा व्यापिनी व्योमरूपा चानन्ता सृष्टिसमृद्धिका स्मृतिर्मेधा तदकान्तिर्लक्ष्मी धृदिस्थिरास्तिः सिद्धिर्जरा पालिनी च क्षान्दिरीश्वरिकारतिः कामिका वरदा वा धः प्लादिनी प्रीतिसंयुता दीर्घा तीक्ष्णा तथा रौद्रा निद्रा च तन्द्रिका श्रोथा चक्रोधिनी पश्चाक्रियातू का पीता श्वेताजुन पश्चा दशेतानंदयाुता उक्ता कला मदृक तक सचरेद कला युमा दृकायास्त मुनि प्रोक्द प्रजापति गायत्री छन्द आख्यादं देवदा शारदा भीता प्रस्वदीर्कान्धरस्थैश्च तारैकुर्यात् षडङ्गकं पद्मश्चक्रगुणैणांश्च दधतीं च त्रिलोचनम् पञ्चवक्त्रां भारतीं तां मुक्ता भा भूषां भजेत् सुधीः ज्ञात्वैवं तारपूर्वां तां न्यस्येन्नकलान्वितां ततश्च मूलमन्त्रस्य षडङ्गानि समाचरेद हृदयादि चतुर्ध्यन्ते जाती संयोज्य विन्यसेत नमः स्वाहावषड्हुं वौषड्भट्जादय ईरिताः ततोऽध्यात्वेष्ठदेवं तु भूषायुध समन्वितं न स्याङ्गष्टकं तन्मूर्तौ ततः पूजनमारभेत् इति पूर्वभागे बृहदुपाख्याने तृतीयपादे सन्ध्यादिनिरूपणं नाम षष्टिन्तमोऽध्यायः षट्षष्टिन्तमोऽध्यायः ओ